अथ चतुर्थोऽध्यायः गुरुसङ्गमः कामारपुकुरग्रामे वङ्गदेशान्तरस्थिते शर्ची शतधिके पश्चाद् अष्टादशशतात्मके वर्षे फेब्रुवरीमासे चाष्टादशदिने शुभे श्रीरामकृष्णदेवस्य जन्मा यथा मोहम्मदक्रिस्तबुद्धदेवादय स च अवतीर्णो भवद्धर्मं यथार्थम् अनुशासितं निर्धनब्राह्मणौ भक्तौ पितरौ तस्य धार्मिकौ आसीद्गदाधरश्चेति तदीयप्रथमाभिधा ग्रामे ललिते रम्ये व्ययितं तस्य शैशवम् आजीवनं तस्य नासीद् अवेच्छा शिक्षणे तदीयाध्यात्मिको भावः तथापि प्रगटीकृतः सन्यासी जनसंसर्गं बाल्ययेव एव स दृष्टवान् कीर्तनालापनं कृत्वा यस्मरद्रवहु स स्वयं संलग्न स्यात् समाधौ सबोधहीनो भवेदपि ताते ते तस्य मृते जातं कुटुम्बं निराश्रयं ज्येष्ठभ्राता कलकत्तानगरं गतः ससोदरेण कलकत्तां समानीतो गदाधरः पाठशालाम् प्रवेष्टुं स तस्य भ्रात्रानुशासित गदाधरः किन्तु तस्मिन् विषये विमुखोऽभवत् केवलं जीवकालब्धै तिनेष्टं न हि शिक्षणम् ईश्वरप्रापणं तस्य मुख्यलक्ष्यम् अभूत् तदा तदर्थं पठनं यत्तो युक्तं तत्पेन वाञ्छितं कालीमन्दिरमेतस्मिन् समये दक्षिणेश्वरे राळीरासमळी त्याख्य धनवत्या विनिर्मितम् मदीयपूजकत्वेन गदाधरसहोदरः नित्युक्तो भ्रातरौ तस्मान् गतवन्तौ च तस्थलम् गदाधरो वा श्रीरामकृष्णकलौ गतो यदा प्रधानपूजककाली का मन्दिरस्य बभूव च आरे भी सा यदा काली, सहयद कालीतृ विग्रहपूजन निर्भर तस् हृदय दिव्यदर्शनवांचया अतन सहसाणी तथा पूजा विधि क्र तदीयर्तनालाप किन्तु भक्तिरसाकुलः मातृदर्शनलब्धर्थम् उद्विग्नं तस्य मानसं भक्षनिद्रादिकं सर्वं विस्मृतं तेन पूर्णतः गते सु दिवसेष्वेवं न्यूनीभूता जीवितुं नहि नेष्णिते नेष्टं विना दैवतदर्शनं हठात् स मन्दिरे लम्बमानं खड्गं गृहीतवान् समापयितुं उद्दिश्य जीवनं स्वं निरर्थकं तत्क्षणे प्रकटीभूता काली माता च तत्पुरः श्रीरामकृष्णपतितो मूर्छितसन्धरातले सान्निध्यं दिव्यमातुः स तत्पश्चादनुभूतवान् कल्पना विविधा जाता तदीयहृदयान्तरे कस्मिंश्चिदन्यलोके स जीवतीति च तन्मतिः भ्रान्तचित्तसयित्येव जनैस्तुपरिचिन्तितः तस्याध्यात्मिकचर्याभिः आरोग्यं तस्य बाधितं श्रुत्वेदं तस्य माता ग्राममागन्तुमादिशत् व्यावर्तयितु कामा सा तनयस्य मनोगतं श्रीरामकृष्णदेवस्य विवाहो निश्चितस्तया अभिलाषो भवत्येव दिव्यमातुरिति स्वयं निश्चित्य सम्मतिर्दत्ता पाणिग्रहाय ग्रहायच शारदा मणिरित्याख्या समीपग्रामवर्तिनी भवेश्वस्य वधूश्चापि तदानीं तेन सूचितम् केवलं पञ्चवर्षीयां तदासीत् शारदा मणिः स्वभावशुद्धे प्रामुख्यम् तत्कालेऽपि विभेदसा अविलम्बितमेवाभूत् विवाहश्च ततः परं पुनः श्रीरामकृष्णस्तु गतवान् दक्षिणेश्वरं संलग्न यथापूर्वम् अध्यात्मान्वेषणेषु मातानभ्य नव्यवधूस्तद्वन् बान्धवश्चापि विस्मृताः गतेषु दिवसेष्वेवं दक्षिणेश्वरमागता काश्चित्सन्न्यासिनी यातो जज्ञे तान्त्रिकसाधनाम् अध्यात्माभ्यसनं तेन तया रीत्यापि साधितं स्वप्लकालान्तरेलब्धं तेनोष्टेष्टफलं तथा श्रीरामकृष्णदेवे तु प्रथमत्वेन विज्ञातम् ईश्वरास्यावतारस्त्वं पाण्डि पण्डितानां सभायां सा प्रमाणीकृतवत्यपि शास्त्रग्रन्थान् समुद्धृत्य सत्यमेतदसंशयं श्रीरामपूजनं तेन जटाधारीति योगिनः अधीतमार्जितं चापि तद्वारा रामदर्शनम् तोतापुरीरिति प्रोक्ता यतिवर्यास लब्धवान् संन्यासदीक्षां तदनु केवलं दिवसत्रये तेनाधिगतमेकत्वं ब्रह्मणा सहितं ह्यपि यत्तु तोतापुरैर्लेभे दीर्घकालश्रमे रहि ततः स क्रिस्तमुस्लिमधर्मो भक्ता समाचरत् तद्धर्मस्थापकाभ्यां स पादात्म्यं प्राप्तवानपि कालेनैतेन तत्पत्नी सम्प्राप्नोन्नवयौवनं कथा विजित्रानाथस्य शारदामणिं रश्णोत् याथार्थम् अवगन्तुं सां दक्षिणेश्वरमागता श्रीरामकृष्णदेवेन स्वपत्न्या स्वागतं कृतं वसन्त्यासी जननी दक्षिणेश्वरे तया सह वसेश्वस्य भार्येति निर्णिनाय सः अन्यस्त्रीषु यथा तेन कालीमाता विलोकिता तथा तद्दिव्यरूपं स स्वपत्न्याम् अपि दृष्टवान् विहिता षोडशी पूजा कान्तामुद्दिश्य तेन च एकि तया जातौ आत्मानं च तयो द्वयोः सर्ववस्तुषु सर्वत्र जगदीशं स एवमध्यात्मभावस्य परकोटि स आप्तमान् भ्रान्तचित्तस इत्येवं यैर्जनैः परिकल्पितम् स दिव्यपुरुषोऽस्तीति तैरेवाद्य विचिन्तितं श्रीरामकृष्णदेवोऽपि ज्ञातवान् स्वयमेव य ईश्वरस्यावतार स भवतीति सुनिश्चितम्